सभिन्धु सिन्धु सुष्करतरङ्गभिङ्गरञ्जितं ऋषसुपापजात जातकारिवारिसंयुतं ऋतान्तदूतकालभूतिभीतिहारिवर्मदे तदीयपादपङ्कजं नमामि देवि नर्मदे त्वदम्बुलीनदीनदे व्यसंप्रदायकं कलौ मलौघि सर्वतीर्थनायकं सुमथकथनक्रचक्रचक्रवाकशर्मदे तदीयपादपङ्कजं नमामि देवि नर्मदे भीरभीरपूरपापभूतभूतलं धनसमस्तपातकारि दारितापदाचलं जगल्लये महाभये त्रिकण्डसोनुमदे तने पादपङ्कजं नमामि देवि नर्मदे कथं सदैवमेभयं तदम्बुवीक्षितं यदा त्रिकण्डुसोनसोनका सुरारिसेवितं सदा पुनर्भवाब्जन्नजं भवाब्ज दुःखवर्मदे तदीयपादपङ्कजं नमामि देवि नर्मदे अलक्ष लक्ष किल्ल रामरासुराधि पूजितं तु लक्ष निरतीरधिर पक्षिलक्ष पूजितं वसिष्ठ शिष्ठ पे पलादि कर्दमादि शर्मदे प्रदीयपाद पङ्कजं नमामि देवि नर्मदे शरत्कुमारनाचिकेतकस्य पाति षट्पदै वितं स्वकीयमानसुनारदादिषट्पदै रवेन्दुरन्तदेवदे राजकर्म आद पादपङ्कजं नमामि देवि नर्मदे अलक्ष लक्ष लक्ष पापलक्षसारसायुधं ततस्तु जीवजन्तु तन्तु भुक्तिमुक्तिदायकं विरिञ्चिवेष्टुशङ्करस्वीयथामवर्मदे त्व पादपङ्कजं नमामि देवि नर्मदे अहोमृतं क्षणं धृतं महे सखे सजातटे किरातसूतवाडवे सुपण्डिते सखे नटे दुरन्तपापतापहारि सर्वजन्तु शर्मदे सजी पादपङ्कजं नमामि देवि नर्मदे इदं तु नर्मदाष्टतं त्रितालमे मये सदा पठन्ति ते निरन्तरं न यान्ति दुर्गतिं पदा सुलभ्य देहदुर्लभं महे विलोकयन्ति रौरवं तदीयपादपङ्कजं नमामि देवि नर्मदे तदीयपादपङ्कजं नमामि देवि नर्मदे